आदे विधर्मरुताम् सुन्नमे तुमानः सूर्यस्य सन्दृशो युजोधाः अभिनाम वीरवलिक्षमेधः प्रजाजेमहिरुद्र प्रजाभिः मालत्तेभिरुद्रसन्तेभिः सतम् हिमाशीयभेषजेभिः वेषो लो वितरम्यम् भोव्यमीवाश्चादय स्वाभिषोजीः श्रेष्ठो जातस्य रुद्रश्रियासि तपश्च भस्तवसाम् वज्रबाहो वर्षेणः पारमम् हा सस्वस्ति विश्वाभि शीरपसो जिजोधि ्रुधामानमोहाभिर्वा दुष्टूतीर्णभवासुहूती उन्वादीरा कर्पज भेजभिर्भिषक्ता भिर मन्त्राभिषजाम् शृणोमि हवीमभिर्भव तेजोहभिर्भिरमस्तो मेभिरुद्रम् देशीय रः स्वभो मानो अस्यैवभ्रः शुशिप्रो रीरधन्मनायी उन्मा मम मन्द वृषभो भरुद्वान् पक्षीयसा वयसा नाथमानम् अस्य ते रुद्रमृषज गुरहस्तोजो हस्तेभेषलाटः अपभर्तारपरसो दैव्यस्या भीरुमावृढभज क्षमीधाः प्रबभ्रवे वृढभजस्विती चे महो महीम् सुष्ठुतिमीनयामि नमस्या कल्मलिकिरम् नमो धृमसि त्वेषम् रुद्रस्य नाम स्थिरेभिरङ्गैः पुरुरूप भुग्रो बभ्रः शुक्रेभिशेहिरङ्गैः ईशानस्य भुवनस्य भूरेर्न ब भूजोषुद्राजसूर्यम् अर्हन् बिभर्जिताय गाढिधम् बार्हन् निष्कय्य जतम् विश्वरूपम् निगन्दयसे विश्वमभ्वम् न वा वो जीयोरुद्र त्वदस्ति स्तुगि श्रुतम् गर्त सञ्जुवाहनम् मृगन्न भीममुपहतृमुग्राम् मृराज ऋत्रे रुद्रस्तवाः नोन्यन्ते अस्मन्विह पन्तु सेनाः कुमारश्चित्पितरम् वन्दमानम् प्रतीना नाम भूरे दादारम् सत्ताम् गृणे रे स्तुतस्तम्भेढजारास्यस्मे यावो भेडजावा वृतस्तुची निजासन्तामा वृषो जावा यो भू यायणीता पिता रुद्रस्य वस्मि परिरोहेति रुद्रस्य ऋज्या परि त्वेटस्य दुर्मतिर्महीगात् अवस्थिरामघमध्यस्तनष्वमेभस्तोकायतनाय मृड ये वा बभ्रो मृढभजे गिता न यथा देवलहृणीषेण हंसि अवनश्रृण्णा रुद्रेहबोधि बृहद्वा मरुतोधिष्णोः न स मृगा न भीमास्तवेभिहर्तिनाः अभो नसु सुजानारे जेषिणाभृन्धमन्तो अपकारा ऋण्वतः स्त्रिजयम् दालिभाव्या रुद्रो यद्वा मरुतो रुक्मवक्षसो वृषा च ऋष्या सुधानि उक्षन्ते अस्माो न तस्य कर्मैः स्तुरजन्त आशुभिः हिरण्यधि प्रामरुतो दमिध्वतः प्रक्षञ्जाधमृषादिभिः समन्यवः वृक्षेदा विश्वाभुवनावक्षिरे मित्राय भासधमाजीरदा नवः ऋषाज स्वासो न बभ्रदासो न वजुमेषदाः इन्धनम्बभिधेनुभिरत्सधोधभिरद्वस्मभिः प्रतिभिर्भ्राजदृष्टयः आहम् दासो नः स राणि गन्तनमधोर्मदायमरुदः समन्यवः ्रह्माणि मरुतः समञ्जवो नरान्नशंसपानानि कन्तन अश्वामिव विप्रतधेन मोध निकर्ताधियम् चरित्रे वाजपेशम् तन्नो दात मरुतो वाचिरम् रसा दिवे तोदृभ्यो वृजनेषु कारवे सनिम् मेधामलिष्टम् दृष्टहंसः यद्यिञ्जते वरुतो ऋक्पक्षतो स्वाजेषु भगासु दा न वः सुदारेषु पिन्बते जना जलातः विषे मही विषम् यो नो मरुतो मृगता जिमत्यो रिपुर्देवषः मर्दय गतपूषा चक्रियाभितमव रुद्रा सदतो हन्तनावधाः श्रीकान्दद्वा मरुतो यामजे स्यायदोधरव्यापयो दुहुः यद्वालिजेन वा मानः स रुद्रिया स्त्रिगम् जरायज रतामादाभ्याः महोमरुताय भजाम्ना विष्णोः रेणस्य प्रभृतेः भावहे हिरण्यवर्णान् कुवान् यतस्रुजो ब्रह्मण्यन्तः सन् स्याधा जीवहे तेन सर्वात् प्रथमो यज्ञमो हिरे तेन हृन्वन् दोषसौ ज्योष्टिषु उषा वीरपोर्णते महो ज्योतिषासु जगागो अन्नसा हे क्षोणेभीरऋणेभिर्णाञ्जभिः रुद्रा ऋदस्य सदानेषु वा मृदुः निमेघमाना अत्ये न पाजसा दुश्चन्द्रम् वर्णम् दधिरे नो महिमरो समोदबुभेधेन नमसाग्णीमसि त्रिजोनयान् पञ्चहोद्रेण भिष्टजा भवत्तराञ्जक्रियावासे यया रथ्रम् बालयथात्यम् भोजया निगो भुञ्जथा वन्धिकारम् अर्वा जीता भूतिरोषुभाश्रे वा सुभतिर्जीगातु उपे वदृक्षिवाजयुर्म तस्याम् जनादधीतनाद्योगिरो मे अवान्नपादासुभे सेदस्करधिजोषीषद्धि इमाम् स्वस्मै हृदातु कष्टम् मन्त्रम् भो देव कुविदस्य वेदत् अपान्नपादसूर्यस्य मह्ना विश्वान्नर्जोभुव नाजान समन्यायन्ति पायन् जन्याः स बा नोर्मम् नद्यः पृणन्ति तमोशु जिंसु च योजि दिवांस पपान्नपाः परितस्थुरापाः तमस्मे राजुभतयोजुवाः नम् मन्मृज्जमाः नाः स सुभिश्चित्व तस्मे दीदाय विद्मो हृगयन् निगप्सु अस्मै विश्व जनानिर्देवाय देवीर्दिधिघञ्चन्नम् कृता यो बहिः प्रसंस्रे अप्सु सबीयूरम् धयति पूर्भसूरा अश्वत्मजनी भास्य ग्रहस्व गृहो रिवः संवृतः पायि सूरीन् मामासु भूर्ष परो अप्रभृष्यन्नारादजो विना सन्नानृतानि स्व आदमे सुदुघायस्य धेनु स्वधाम्बी बाय सुभन्ना मत्ति अपाण्डवा दोर्जयन्नप्स्वा अन्तर्वासुदेयाय विधते विभाति योचीना दैव्येन धृता वाजस्व उर्विया विभाति मया हि धन्या भुवनान्यस्य प्रजायन्ते विरुधश्च प्रजाभिः स्तादुपस्थम् ब्रह्माणा भूर्ध्वो विद्युदम् वसानः तस्य महिमानम् वहन्ति हिरण्यवर्णा परियन्ति यक्ष्मेः हिरण्यलोपश्च हिरण्यसन्दृगपान्नपात्सेसु हिरण्यवर्णः हिरण्यजात्परियोनेर्निषद्या हिरण्यदादत्यम् नामस्मैकमुदचारुणामा वीत्यम् वर्धते नूरवान्धते युपदजस मिथ्या हिरण्यवर्णम् घृतमन्नामस्य अस्मै बाहू नाम भमायसख्ये यज्ञेर्विधे मनमासा हविद्भिः संसारमाद्भिन् मेपरीवन्त ऋग्भिः सजी मृगाजन यत्ता सुगर्भम् सजीम् सुद्धयति सम्रीहन्ति त्रे धृतवन्तम् वहन्ति स्वयमध्यैः परिदीयन्ति जग्ः अजाम् समग्ने सृतिम् जनाजायाम् सममगवद्भ्यः सुभृतिम् तिष्ठन्तद्रम् जगवन्ति देवा विदधे सुवीराः तुभ्यम् यन्वा न वा दृष्टगा अबोधक्षा सेममेभिरद्रेभिर्नलाः शिबे न स्वाहा प्रभूतम्बष् कृतम् होत्रा दासोमम् प्रथमोजै शीर्षे यज्ञैः संविश्वा प्रदेभिर्षिभिर्यामन् शुभ्रासोः अञ्जिषु प्रियाभूता आलद्याः बर्हिर्बालस्य गोनवः पोत्रादा सोमम् पिबदायिगोणरः ममेव नः सुभवा आहि हन्त ननि बर्हिषि सदतनारणिष्टन अथ क्षिदेवा इह विप्रजक्षितो सम्भोव कर्मिष गायोनेषु त्रिषुवेः प्रस्थितम् सोम्यम् मधुविवाग्ने ध्रात्तमभागस्य दृग्मिः एषश्च ते कन्वारम् न मध्व भ्यम् श्रुतो माघवन्तभ्यमाभृतस्तमस्य ब्राह्मणादा त्रिपत्नी जुषेधाम् यज्ञम् बोधदङ्गमस्य मेधत्तो होदामिदः कूर्व्या अनु अच्छा राजा रानत्यावृतम् प्रसापीव्रतम् सौम्यम् मधुरा अपीवादयमनाः हरि ओमस्व होत्रादनुजोषमन्धसोऽध्वर्यभत्सपूर्णामश्चासितम् तस्माजेतम् भारतदध्वसोधरिर्होत्रात्सोमम् द्रविनोदप्युप ऋतुभिः यमुपूर्वमभूभेदमिदम्भूजुहव्यते अध्वर्युभिः प्रस्थितम् सोम्यम् मधुपोत्रात् सोमम् न विनोदः पिब ऋतुभिः निध्यन् तु ते बह्न योजयेभिन् वीरय स्वावनस्पते आयूया धृष्टाभिगोर्यात्तमेष्ट्रात्सर्वन्द्रविनोदः पिबुभिः अपार्धोत्रा ऋदपोत्रादवत्तोदमेष्ट्रादजुषधः प्रयोहिताम् तुयम् पात्रमवृत्तममवत्यन्द्रविनोदाप्येव दद्राविनोदसः र्वाम् च मद्यय्यम् विवाहम् रथम् युञ्जासा निगवाम् विमोचनम् प्रङ्गम् हवेशि मधुनाहिकम् गतमथा सोमम् विपतम् वाजिनीवसु जोष्यग्ने समिधम् ज्योष्याहूतिम् जो ज्योषि ब्रह्मजन्यम् विश्वेः भ्रमविश्वा वसा महुसम् देवातः पाययाहविः उदिश्च देवस्य पिता सभाज सश्वतमम् तदा पावन्निरस्ताद् नूनम् देवेभ्यमथ भजद्विहो दे वात्राम् स्वस्तौ विश्वस्य हि सृष्टये देवभूर्ध्वः प्रभागवा निश्चि सर्ति आपश्चिदस्यम् व्रत आदिवद्रा अयम् छिद्वातो रमदेवज्मन् आसुभिश्चिद्यान्विमोजादिनो न मरी रम ददामानञ्चिदे अस्य ऋषूयाम् प्रथम् सा विकर्मोगात् पुनः समम् यद्विदम्भयन्ती मध्यागत्तो न्यधाच्छग् बधिराः उत्सङ्गाया स्था रमादिस्स नानोगा सुनिर्जो विश्वमाजुर्भितिष्ठते प्रभवः शोको अग्नेः ज्येष्ठम् माता सूनमे भागमाधा जन्मस्य एतमिषिकम् स वित्रा समाववर्तिमिष्ठे दो दोडर्वविश्वेषाम् कामश्चरता ममा भूत् स्वापो विकृतम् हित्यागादनु व्रतम् स विदुर्दैव्यस्यमस्य मत्सु भागम् धन्वान्वा मृगजसो वितस्थुः वरा निविभ्यो न गीरस्य लाणी व्रता देवस्य स विदुर्मीनन्तितम् निविषुदर्भूराणः ो मार्ताण्डोर्गाः सो जनाः वरोडो न मित्रो व्रतवर्जमान मिलन्ति रुद्रः नालादयस्तमिलाम् स्वस्ति हुमे देवम् स विदारम् नमोभिः भवन्धियम् बाजयम् दः पुरम् छिन्नराजम् अव्याह नाव्याः आदेमस्य सङ्कथेरयीलाम् ना। लियादेवस्य सविदुष्याम अस्मभ्यम् तद्दिव अद्य पृथिव्यास्तया दत्तम् काम्यम् राधागात् स यस्तो दृभ्या भये भवाञ्जुरुसंसायस पितरचरित्रे रावाणे पततिदर्थम् जरेधे गृहे वृक्षम् मेधिमन्तमच्छ ब्रह्माणेव विदधा मुक्थसा दूते वह व्याजन्याः पुरुत्रा वीरादेव यमा परमास चेथे आशुम्भमाने दम्बाली वक्रुविदाजनेषु शृङ्गे वनः प्रसमागन्धवर्वाच्छवामि भज भूरातरोभिः चक्रवाके वप्रतिवस्तोश्राजादम्भत्सेवक्रा नावेव नः पारयतञ युगे वलभ्येव न उपधीव प्रदेव स्वारे वनो हरिषण्या तनोढा गृगेव विश्वः पादमस्मान् वादेवादुर्या नद्येव वा रीतिलक्षी भजक्षुराजा हस्ताः विवतम्बे विष्टापादेयदम् अस्य अच्छ ओष्ठाः विभवध्वा श्रेमदम् तास्तनाः विव विप्यतम् जीवसेनः नायेव नस्तन्वोः रक्षिता राकर्णाः विव भूतमस्मे हस्तेव सख्यमभिशम् दीनः क्षामेव नः समाजतम् भजांसि युवायिनाः अश्विनायुष्णयन्ति एतानि रामश्विमर्धर रा ब्रह्म स्वामम् गच्छ मदासा अक्रन् तानिषालोपायादम् बृहद्ब देव पि तथे सुवीराः ूषना जनानारजीनाम् जनाना दिवो जनाना गोपो देवा जना पृथिव्याः जातौ विश्वस्य भुवानस्य गोपौ देवाः गण्मन् अमृतस्य नाभिम् इमौ देवौ जायमानौ जुषन्ते मौ तमाम् जि गोहतामजुष्टा आभ्याविन्दः पद्ममामा स्वन्तः सो मा पूषभ्याम् जन दुःसृजासु सोमाभूषणालज सोऽमानम् सप्तचक्रम् प्रथमविश्वबिम्बम् यषो वृदम् मनसा युज्यमाहानन्तम् निम्बसो वृषणापञ्च रश्मिन् दिव्या अन्यस्तदानम् चक्रभृच्च पृथिव्या पन्यो अध्यन्तरिक्षे स भस्मभ्यम् गुरुवारम् पुरुक्षम् राजस्पोढम् विष्य धाम्नाभि भस्मे विश्वान्यो भुव नाजया न विश्वामन्यो अभिचक्षा नयेति सोमाभूषणापवदम् धियम् मे युवाभ्याम् विश्वाः प्रदनाजयेम धियम् पूषायन्वद विश्वबिन्वो नयम् सोमो आनयिपतिर्दधातु अपातु देव्यतिरनर्वा जहद्वदेम विदधेः सुमीराः वाजो सस्ते िणो रथान् सोमापीजेल्पान्वाजवाजह्ययम् शुक्को आयामि ते गन्ताधिसम्भतो गृहम् शुर्कस्याद्यगवासि रीन्द्रवायो नियुक्त्वातः आयातम् पिबदम्बर अजम् वाहम् मित्रावरुणा सुः सोमा रुता वृथा राजा ना नाम न भिद्रुवा ध्रुवे सदस्योत्तमे सहस्रस्थो न आसादे साजा घृता सूती गो वा दूषुणा सत्या स्वाहा वद्यादवस्विना भर्तेरुद्रा निर्वाय्यम् न यत्परोणान्तरादधर्णण्सु दुःसम् सोमत्यो रिपुः ता नावोघवस्विना लजम् विसङ्गम् धिष्ठ्या हि स्थिरो वितर्षणिः इन्द्रश्च मृगजाहादिनो ननः पश्चादघन्नासत् भद्रम्भावादिनः पुरः इन्द्राशाःभ्यः परिसर्वाःभ्यो अभयङ्करत् जयदाशत्रोर्वितर्षणिः विश्वेः देवासागतशृणुतामजिमम् भवम् एनम् बहिर्निषेदत ीव्रो वधूमा अयम् सुरहो त्रेणुमत्सरः एतम् इन्द्रज्येष्ठावरुद्गना देवाः सः पूढरादयः विश्वे मम श्रुताहवम्बीतमे देतमे देवे तमे सरस्वती प्रशस्तिमम् मनस्कृति मे विश्वा सरस्वतिसृदायूम् षिदेव्या श्रृणोणवत्स प्रजान् दे विदिभ्यः इमा ब्रह्म सरस्वति जुहस्व वाजिनीवति या देवन्मघृत्समदारे दावी प्रजा देवेषु जुह्वति प्रेता यज्ञस्य शम्भुवा युवामि दावृणीमहे भाग्यम् च अहम् व्यवहारम् या वा नः पृथिवी इमाम् सिद्धमद्यते विस्मृतम् यज्ञम् देवेषु यच्छताम् आवाहमुपस्थमद्रुहा देवास्येदम् तु जज्ञयाः इहाद्य सोमबीतये कलिकृतजवम् रब्रुबाणयिजर्ति वाच वर्णभरावम् मङ्गलश्च सगमे भवा श्रीमात्माचेद विभाविष्या विदत् मात्माेन बुद्धीन्व सुबन्व मात्माः विदतिषु मान् भीरो अस्ता वेद्या प्रति सङ्कलिक्रदत् सुमङ्गलो भद्रवादीव देह अवक्रन्द दक्षिणदा विहांसु मङ्गलो वा भद्रपादी स कुन्ते मानस्तेन यैश समाघसम् सदेव विदधे सुवीराः प्रदक्षिणीदभिरेणन्तिकारभोपयोपदम् सरुदुधा सुकुन्तलयः उभे वाचो वदति स भगायै भगायत्रञ्चत्रैष्टो भञ्चा उद्गादेवासगुणे साम गायसि ब्रह्म पुत्र जीव सपनेषु शंससि ऋणे वायिषु सुमती रवीत्या सर्वतो हो नश्व गुणे भद्रमा वद विश्वतोः नश्व गुणे पुण्यमावद आवधन् त्वं यदुत्पलम् वदासि कर्करिजादेव विदधे सुमीराः भद्रम् वद दक्षिणतो भद्रमुत्तरतो वद भद्रम् पुरस्तान्नावद भद्रम् पश्चात् कबिञ्जल भद्रम् वाद पुत्रैर्भद्रम् वाद गृहेषु च भद्रमस्माकम् मा वद भद्रम् वद भद्रमधस्तान्नावद भद्रमुपरिष्टान्नावद भद्रम् भद्रन्नावद भद्रन्नः सर्वतो वद असपत्नः पुरस्तानः शिवम् दक्षिणतस्कृधि हयम् सततम् पश्चात् भद्रमुत्तरतो गृहे यौवनानि महयासि जिज्ञुषामि भवन्दुभिः शकुन्तक प्रदक्षिणम् शतपत्राभिनो वध आवधं त्वं सकुणे भद्रमावद तूष्णीमासीनस्वपतिञ्चे किद्धिनः यदुत्पदन् वदाधिकर्करिर्जथा बृहद्वादेव विदधे सुवीराः विश्वेश्वराय नमः ओ oh. तपसम्भक्ष्यग् वह्निम् जगर्थ विदधे यजध्ये देवा मच्छादी समाजे अग्ने जन्मम् जुडस्व प्रान्तरम् यज्ञम् च ग्रमबद्धाङ्गी समिद्भिरग्निम् न साधु पश्यन् दिवः सर्विदधा कवीनाम् गृत्सारे चित्तपसे गातुमीषुः वयो दधे मे दीरः पूत दक्षो दिवः स्वबन्धर्जनुषा पृथिव्याः अविन्दर्नदर्शतमत्स्वा अन्तर्देवासो अग्निमपसि स्वश्रीणाम् अवरथयन् सुभगम् सप्तजग्मी श्वेदम् जज्ञानवारुढम् वा हित्वा श्रिसुन्नजातमध्यारुढ स्वाहा देवासोः अग्निम् जनेमन्वपुष्यन् शुक्रेभिरङ्गैरज आदरन्वाङ्गतुम् पुराणः कविभिः पवित्रैः शोतिर्वपरिजायुरपां श्रियो मिमे ते बृहतीर नूनाः वं राजा सेवन दधीरदब्धा दिवो जक्ष्मीरवसाः स नात्र युवत यस्य यो नीरे कम् गर्भम् दधिरे सप्त ीर्णास्य सम्भदो विश्वरूपाभृतस्य यो नो श्रवधे मधूना अस्तुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीतिः अभ्रा नो नोदभसोऽ शुक्रारभसा वपूंषि रामधूनो भृदश्च मृषा य वाृथे काव्य पितुश्च दोध्जनृषाः विवेदव्यजधाराः असृषद्विधेनाः गुहाकरम् दंसकेऽभिः सिवेभिर्दिवो जग्मीभिर्न गुहा बभूव ऋतश्च गर्भम् च ऋतश्च बभ्रे पूर्वीरेकाः अधजद्वीव्यानाः वृक्षे सवत्नेषु च ये सबन्धुघे अस्मै मनुष्ये हेवा हि उभौ मादेव बद्धपो अग्निम् यशसम् हि पूर्वे नृतश्रयो रामो राजा दीना वद्भिपसि स्वसृणाम् अत्रो न ब्रिः स निजे महिलाम् दृक्षेयः सो न मे भारुजीकः सृजापा गर्भोजो अग्निः अपाङ्गर्भाजन्मनः सासम् जि जग्मः प्रनिष्टम् जातम् तपसम् दुपश्यन् ृगन्त यद्भारोधारुजीकप्यम् सजन्तभिद्युतो न शुक्लाः गुहे वृद्धम् सदा शिश्वे अन्दरबालपूर्वे अमृतम् दुहाणाः गीरे चत्वारिजमानो हरिर्भिरिले सखि त्वम् सुपतिम् निकावः देवैरवो मिलीहितम् चरित्रे रक्षा च नोदन्येऽभिरणीकैः भक्षेदास्तव सुप्रणीते घ्ने विश्वानि धन्या दधानाः सुनेद्रव सा तुञ्जमाना दुरग्ने मन्त्रो विश्वाहा निद्वान् ङ्गवास यो धमो नानो देवासि साधन् नियो दो मे अमृमत्यानां राजास साध वि तथा निधन् आनो सख्येभिः शिवे धर्मिभिः सरण्यन् अस्मे रयम् बहुलम् सन्त रुद्रम् सुभाचम् भागं चशसम् सुधीरः एता ते अग्ने जनि वासनानि प्रभोरुज्ञाय नूतनानि वोचम् मा तिरुक्ष्मेतमा ना जन्मन् जन्मन्निहि तो जातवेदा जन्मन् जन्मन्निहितो जातमे नेता विश्वामित्रेऽभिरुद्धे अजस्रः तस्य भजन्सो मतो यज्ञ यस्यापि भद्रेसौ मनसेस्या इमम् यज्ञम् सावन्ना दे भद्रा भे हि दुःखोरः रजम् देवमायाजस्वा ग्ने पुरुदम् संस लिङ्गा शश्वनाय साध स्यान्न सो नस्तनय बिजावाग्ने साधे सुबिर्भू त्वस्मेराय झषणा भृजावृते घृतम् न भूतमग्नजे जनामसि विजराहोता रम् मनोरश्च वाघतो धिया रथन्नकुलीसृण्वति जनुसी उभे समात्रो न भवत्पुत्र युड्याः हव्यदीर्जम् विभावडो विधर्मणि देवादो अग्निम् च नयन्त चित्तेभिः सुलचालम् भारुराज्यो दीढा महावत्यन्नवाजम् च नश्यन्म ब्रुवे आमन्त्रस्य दृष्टन्तोपरेण्यम् ऋणीमहे अह्रजम् वाच भृग् भृगो नासुजम् कविक्रतुमग्निम् राजन्तम् दिव्येन सोजिहा अग्निम् सुम्नाय दधिरेजना वाजस्वपसमिह भृक्तबर्हिणः यदस्रोजः सुरुतम् विश्वदेव्यम् रुद्रम् यज्ञानाम् साधदिष्टिमपसा यज्ञेणो भृत्तपरिटो नराः अग्ने तुच्छमालासमुपासते त्रिवेभ्याः आरोदसि अवर्णदा स्वर्पह जातम् विलयेन वपसो अधारादयन् सोऽध्वराय परिलीयते कविरत्यो न वाचादेतलो हि यः दे धर्म तेभुजमुलोकमुद्वेनीयुः ढस्सं ते जासे समुद्भतोः निवतोः जाति मे पीठत् स गर्भमेषु भुवनेषु श्रीधरत् श्रुम्बे जठरेणुप्लग्लाम् मृगालन्न सिंहः वैश्वरः पृथुभाजापुर माधोपि धातु वैश्वर प्रत्न धा न कमारोपृष्टम् भन्द सुमन्मभिः सोवर्भव जनयन् जन्तवेधनं समानमध्यम् पर्यजाग्रीभिः अमायम् दे मा सुम् सु पिता जगम् चासेन्दया मन्निम् स्वदृतम् केलम् दिलोराचनस्थामूढर्बुधम् अज्ञम् भोर्धानम् दिवा अप्रतिकुधम् तमीमहे नमसा भाजिनम् बृहत् मन्त्रम् भोतारम् शुचिमद्वजाभिनन्दमो न स मुख्यम् विश्वदर्शणिम् न चित्तम् बहूय दर्शनम् मनुर्हितम् तथ विद्राय जीमहे वयिशाल राजा पृथुपाज से विभो रत्नाभिधन्त धरुणे शुगात अग्निर्षिदेवादुपस्यत्यथा धर्माणि सनकालदू दुषते अन्तर्दूतो मनूषः पुरोहीतः क्षयम् ऋगन्तम् परिभूषुषर्देवेभिरग्निरेषितो धियावासुः एतम् यज्ञाना साधरम् विप्रासो अग्निम् मायम् चित्ते देशम् तदर्शिरस्तस्मिन् सुम्ना नियजमानाचारे पिता यज्ञानामसु कापि पस्थिता विमाना भर्गनपयनम् च बाघता न्देधामाभिः कविः चन्द्रभक्तिम् चन्द्रना सङ्गरिम् व्रतम् वै सा नुभदम् स्वर्मिलम्पेटेभिराम्भूर्ण्यम् देवादजिहसुश्रियम् ददुः अग्निर्देवे भर्मरूढश्च जन्तुभिस्तम् भालो यज्ञम्भूरुपे सन्ध्या प्रथीरन्तरीयते साधृष्ट्यभिर्जेरोदमो नाभिषस्तिकाग्ने पत्या समिभोहिनः भयाम् त्रिजङ्ग विस्पतिम् जग्पतितारम् धीलापुषितम् च बाघदानाम् चेतनम् जातमेतसम्प्रदम् सन्ति न वा सा ज्योतिभिर्वृधे सुरणः परिक्षिते रग्निर्बभूत वा सा सुमद्रदः स्य व्रतानि भूरि भूरिना भजमुप भूरे पदपातु वृत्तिभिः वैश्वारत पथ्या च जेभिः स्वर्भिद भवता विस्ता परिभूत वै स्वागरस्य नन्दना अब्जो मृगधरे ने गस्य याः गविः उभागन्नता समित्सवत् सुमनादिवसाः आदेवान्यथामनायक्षग्ने यन् देवादस्त्रिरहन्दायजन्ते दिवे दिवरो न भिन्न अग्निः ेवम् मधु मन्दङ्कृ देहस्तौरवाद्युदयोम् विधन्तम् प्रतिदि विश्ववाहाराजिकाजिगोदारमिनः प्रथमम् यजध्यै अच्छा नो भरम् वन्द्यै स देवान् यक्षति धृतान् गाधुरध्वरे अगा योर्ध्वा ज्योति प्रस्थिता रजांसि गो बागा भाज्ञा साधिगोतास्तृपही देवव्यचाभिः सप्त होत्राणि वना चा पृणायन्तो विश्वम् प्रति यन् भृतेन द्विपेदा विदश प्रजाता यज्ञम् विचारन्त पूर्वी आभन्तास्म यते रन्वा आविमे यथा नो मित्रितो रजिन्द्रो मरुत्वात वामोऽभिः देव्याहोदारा प्रथमान् सप्त वृक्षास वदन्ति ृतम् व्रतम् व्रतपादी ध्यानाभारती भारतीभिः सजो देवैर्मेभिरग्निः सरस्वती सारस्वदेवैरर्वाभिस्व देवीर्गहिरे संसदन्तुरीपोढयिनुदेवणस्य स्व यतो वीरः कर्म वण्यस्तु दक्षो युक्तग्राज ते दे देवका महत् वनस्पतेव सुर्भमिः समितासूदयाति से दुहोता सत्यजादि यथा देवानाञ्जलिवानिवेद आया येदविधानो अर्वा इन्द्रेण देवैः सरथम् सा वदेज स्वपुत्रा स्वाहा देवामृता वादयन्ता ओ